ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे अष्टत्रिंशोऽध्यायः हिमालये उवाच का कतिस्थानानि देवे च द्रष्टव्यानि महीतले मुख्यानि च पवित्राणि देवी प्रीयतमानि च व्रतान्यपि तथा यानि तुष्टिधान्युस्तवापि तत्सर्वं वदम्भे मातः यतो नरहे देवी उवाच सर्वम् दृश्यम् सर्वे कालावृतात्मकाः उत्सवः सर्वकालेषु यतोऽहं सर्वरूपिणी तथापि भक्तवात्सल्यात् किञ्चित् किञ्चित् तदो किञ्चित् किञ्चित् अथोच्यते शृणुत्वा वहितो भूत्वा नगराजेव चो मम कोलापुरम् आस्थानम् यत्र लक्ष्मि सदा स्थितः मातुः पुरं द्वितीयं च रेणुकाधिष्ठितम्बरम् तुलगापुरं तृतीयं च सप्तशृङ्गम् तथैव च हृङ्गलायामः ज्वालामुख्या तथैव च शाकम्भर्यः परं स्थानम् ब्राह्मर्यः स्थानोत्तमम् श्रीरक्तदंशिकास्थानम् दुर्गास्थानम् तथैव च विन्ध्याचारनिवासिन्यः स्थानम् सर्वोत्तमोत्तमम् काञ्चीपुरमनुत्तमम् भीमादेव्या परं स्थानं विमलास्थानमेव च श्रीचन्द्रलामहास्थानं कौशिकी स्थानमेव च नीलाम्बाया परं स्थानं नीलपर्वतमस्तके जाम्बूनदेशरि स्थानं तथा श्रीनगरं शुभम् गुह्यकाल्या महास्थानम् नेपाले यत् प्रतिष्ठितम् मीनाक्षा परमं स्थानम् यच्च प्रोक्तम् चिदम्बरे वेदारण्यम् आस्थानम् सुन्दर्या समधिष्ठितम् एकाम्बरम् आस्थानम् परशक्त्या प्रतिष्ठितम् बालसा परं स्थानम् योगैश्वर्या सथैव च रतानील सरस्वत्याः ेषु विश्रुतम् वैद्यनाथे तु बगलाय स्थानम् सर्वोत्तमम् मतम् श्रीमत् श्रीभुवनरेश्वर्या मणिद्वीपम् मम स्मृतम् श्रीमत्त्रिपूरभैरव्यः कामाख्यायो निमण्डलम् भोमण्डले क्षेत्ररत्नम् नातः परतरन्तानम् क्वचिदर्ति धरातुले प्रतिमासं भवे देवी यत्र साक्षात् तत्रत्य देवता सर्वः पर्वतात्मकथाङ्गतः पर्वतेषु वसन्त्येव महत्यो देवतापि तत्रत्या पृथिवी सर्व देवी रूपा बुधै नात पर तनुस्थानं कामाख्यायो निमण्डलात् गायत्र्या च परं स्थानं श्रीमत् पुष्करी अमरेशे चण्डिका स्यात् प्रभासे पुष्कर... पुष्करि पुष्करीक्षिणि नैमीषे तु महास्थाने देवी सा लिङ्गधारिणी पुरुहूताय पुष्कराक्षे आशा अचो चरतीय चंद्र मुंडी महासारे दंडिनी पर भवती नकुले नकुलेरी चंद्रिका तो हरे चंद्रे श्री गिरो शंक स्मृताय्रात केवरे शाङ्करे तु महाकाले सर्वाणि मध्यमाभिरे केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी भैरवाख्ये भैरवी भैर सा गयां मङ्गला स्मृताय ताणुप्रिया करुक्षेत्रे स्वयं भूव्यपि नकुले करकले भवे दुर्गा, विश्वेशा विमलेश्वरे अट्ठाह महानंद महेन्द्र तू महाय प्रोक्ताने वस्त्रपथे पुनः भवानी शंकर प्रोक्ता रुद्राणी के अभिमुक्ति विशलाक्षी महाभाग महालय गोकर्णे भज्रकणी सद्राचार बज्रकर्णके उत्पलाक्षि सुवर्णाक्षे साण् कमला लये तु कमला प्रचण्डके कुरल कुरण्डले त्रिसन्ध्यां माकोटे मुकुटेश्वरी मण्डले के मण्डले श्रीनकी स्यात् काली कालञ्जरे पुनः शङ्कुकर्णे धने प्रोक्ता ज्ञानिनां हृदयाम् भोजे रुल्लेख परमेश्वरी प्रोक्तानि मानुनानि देव्या च तत्तच्चित्रस्य माहात्म्यम् श्रुत्वा पूर्वम् न गोत्तम तदुक्तेन विधानेन पश्चाद्देवीम् प्रपूजयेत् अथवा सर्वक्षेत्राणि काश्यान् सन्ति न गोत्तम अतस्तत्र वसे नित्यम् देवी भक्तिपरायणे तानि स्थानानि सम्पशन् जपन् देवीम् निरन्तरम् यं तत् चरणाम् भोजम् मुक्तो भवति बन्धनात् इमानि देवी नामानि प्रातरुत्थाय दे पठेत् भस्मीभवन्ति पापानि तच्चन्यकाले पठेदे तानि अमलानि द्विजाग्रतः मुक्ता सर्वे प्रयान्ते परमां अधुना कथयिष्यामि व्रता तव सुव्रतः नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः व्रतमनन्त तृतीयाख्यम् रसकल्याणि नीव्रतम् आर्द्रानन्दकरम् नामाय तृतीया याव्रतम् च यत् शुक्रवारे व्रतं चैव तथा कृष्ण चतुर्दशी ओमवारे वतम देव प्रदोष व्रतमेव च यत्र देवो महादेवो देवीम् संस्थाप्य विष्टरे नृत्यम् करोति पुरतः सार्धम् देवैनिशामुखे तत्रोपोषदजन्यादौ प्रदोषे पूजये शिवाम् प्रतिपक्षम् विशेषेण तद्देवी प्रीतिकारकम् सोमवार वतम् चैव प्रियकृन्नगे तत्रापि देवीम् सम्पूज्य रात्रौ भोजनमाचरे नवरात्र द्वयम् चैव वतम् प्रीतिकरम् मम एवम् अन्यान्यपि विभो नित्यसै वैच्छिकानि च व्रतानि कुरुते यो वै वत्प्रच्छम् विमत्सर प्राप्नोति मम सायोज्यम् समे भक्तः समे प्रियः उत्सवानपि कुर्वीते दोलोत्सवमुखान् विभो शयनोत्सवम् तथा कुर्यात् तथा जागरणोत्सवम् रथोत्सवं च मे कुर्यात् दमनोत्सवमेव वा पवित्रोमेवापि श्रावणे प्रीतिकारकम् मम सदा सुधा कुर्यात् एवम् अन्यान् महोत्सवान् भाक, मद्भक्तान् मद्भक्तान् भोजयेत् प्रीत्या तथा चैव सुवासिनिः कुमारिर्वटुकान् चापि मद्बुद्ध्या तद्गन् तरहे वित्तशास्थे नरैतो रयितौ यजे देतान्सुमाधिभिः स एवं कुरु भक्त्या पतिवशम् असन्द्रितः स धन्य कुत कुत्योऽसौ मत् प्रीते पात्रमञ्जसाय सर्वमुक्तम् समासेन मम प्रीतेपदायकम् न श्री श्रीमद्देवी भागवते महापुराणे चादृशस्कन्धे देवी गीतायां श्रीदेव्या महोत्सव्रतस्थानवर्णनं नाम अष्टत्रिंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु